अथ कृष्णयजुर्वेदे क्रमपाठे चतुर्थकाण्डे द्वितीयः प्रश्नः प्रारम्भः ओष्णाः क्रमः क्रमोऽसि अस्यभिमातिः अभिमातिः गायत्रम् अभिमातिः इत्यभिमातिः गायत्रम् छन्दः छन्दः आरोह रोह पृथिवीम् पृथिवीमनु अनुवि विक्रमस्व क्रमस्व निर्भक्तः निर्भक्तः सः भक्तः सयम् यन्विष्मः विष्मो विष्णोः विष्णाक्रमः क्रमोऽसि अस्यभिशस्त्यः अभिषस्त्यः त्रैष्टुभम् अभिषस्तिःत्यभिषस्तिः त्रैष्टुभम् छन्दः छन्दः आरोह रोहान्तरिक्षम् अन्तरिक्षमनुविक्रमस्व क्रमस्व निर्भक्तः निर्भक्तः सः निर्भक्त इति निःभक्तः सयम् यन्विष्मः विष्माविष्णोः विष्णाः क्रमः क्रमोसि अस्याधीयतः अराधीयतो हन्ता हन्ताजागतेन जागतम् छन्दः छन्दा आरोह रोहदिवम् दिवमनु अनुवि विक्रमस्व क्रमस्व निर्भक्तः निर्भक्तः सः निर्भक्त इति भक्तः सयम् यन्विष्मः विष्माविष्णोः विष्णाः क्रमः क्रमोऽसि असि शत्रुजतः शत्रोजतो हन्ता शत्रूयत इति शत्रुजतः आनुष्टुभमित्यानोष्टुभम् छन्द आरोह रोहदिशः दिशो नु अनुवि विक्रमस्व क्रमस्व निर्भक्तः निर्भक्तः सः निर्भक्तयतिनि भक्तः सयम् यन्द्विष्मः विष्मयति द्विष्मः अक्रन्ददग्निः अग्निस्तनयन् स्तनयन्निव स्तनयन इव द्योः द्योः क्षाम क्षामा रेरिहर् रेरिहर्द्वीर्धः वीर्धः समञ्जन् समञ्जन्निति सम् अञ्जन् सद्योज्ज्ञानः ज्ञानो विहिद्धः युद्धो अख्यत् अख्यदा आरोदसी रोदसी भानुना रोदसी इति रोदसी भानुनाभावि भात्यन्तः अन्तरित्यन्तः अग्रेभ्यावर्तिन् अभ्यावर्त्तिन्नभि अभ्यावर्तिन् इत्यभि आवर्तिन् अभिनः न आ आवर्तस्वर्तस्वायुषा आयुषावर्चसा प्रत्यसा सञ्ज्ञा सञ्ज्ञामेधयाः मेधयाः प्रजया प्रजया धनेन प्राजया धनेनेति धनेन अग्ने अङ्गिरः अङ्गिरः शतम् ते ते सन्तु सन्त्वावृतः आवृतः सहस्रम् आवृत इत्या आवृतः सहस्रम् ते उपावृतः पोषस्य पोषस्य पोषेण पोषेण पुनः पुनर्नः नष्टम् नष्टमा आकृति पृथिपुनः पुनर्नः नो रयिम् रयिमा आकृधि कृधिकृधि पुनरूर्जा ऊर्जानि निवर्तस्व वर्तस्व पुनः पुनरग्ने अग्नयुषा युषायुषा आयुषेत्यायुषा पुनर्नः नः पाहि विश्वतः विश्वत विश्वतः स रय्यानि निवर्तस्व वर्तस्वाग्ने अग्ने विन्वस्व विन्वस्वधारया धारयेति धारया विश्वप्स्न्या विश्वतः विश्वप्स्न्येऽपि विश्वाप्सिः विश्वतस्परि परी जपरि उदुत्तमम् उत्तमम् वरुण वरुणपाशतमम् वरुणपाशम् पाशमस्मद् अस्मदव अवाधमम् अधमम् वि इमध्यमम् मध्यमग्रश्रथाय श्रयेतिश्रथाय अथा वयम् अयमादित्य आदित्य व्रते व्रते तव तवानागसः अनागसो अनितये अनितये श्याम श्यामेदि श्याम आ त्वाः ऋषम् अहारुषमन्तः अन्तरभूः अभूर्ध्रुवः ध्रुवस्तिष्ठ तिष्ठाविचाचलिः अविचाचलिरित्यविचाचलिः विषस्त्वा सर्वाः सर्वा वाञ्छन्तु वाञ्छन्त्वस्मिन् अस्मिन् राष्ट्रम् राष्ट्रमधि अधिश्रय श्रयेऽधिश्रय अग्रे बृहन् बृहन्नुषसाम् निषसाम् ऊर्ध्वः ऊर्ध्वो अस्थात् अस्थान् निर्जग्भिवान् निर्जग्भिवान्तमसः निर्जग्भिवान् इति निः जग्वान् तमसो ज्योतिषा ज्योतिषा आगात् अगादित्यगा अद्यर्भादुना भादुना रुषता रुषता स्वङ्गः स्वङ्ग आ स्वङ्ग इति जातो विश्वा विश्वासद्मानि सद्मान्यप्राः अप्रा इत्यप्राः स्वीदत्वम् त्वम् मातुरस्याः अस्या उपस्थे उपस्थे विश्वानि उपस्थयुपास्थे विश्वान्यग्ने अग्नेभजुनानि व्यजुनानि विद्वान् विद्वानिति विद्वान् मयिनाम् एनामर्चिषा अर्चिषा मा तपसा तपसाभि अभिषूषिचः शूषिचोऽन्तः अन्तरस्याम् अस्याम् शुक्रज्योतिः शुक्रज्योतिर्भिः शुक्रज्योतिरिति शुक्राज्योतिः विभाहि भाहिति भाहि अन्तरग्ने अग्नेरुचा रुचा त्वम् त्वमुखायैः मुखायै सदने सदने स्वे स्वै विस्वे तस्यास्त्वम् त्वकम् हरसा हरसा तपन् तपञ्जातवेदः जातवेदः शिवः जातवेद इति जातावेदः शिवो भव भवेति भव शिवो भूत्वा भूत्वा मह्यम् मह्यमग्ने अग्नेथोः अथो सीद अथो विद्यथोः सीदशिवः शिवस्त्वम् त्वमिति त्वम् शिवाः कृत्वा कृत्वा दिशः योनिमिहा इहा आसदः असद इत्यसदः पुंसः शुचिषत् शुचिषद्वसुः शुचिषदिति शुचिषत् असुरन्तरिक्षसत् अन्तरिक्षसद्धोताः अन्तरिक्षसदित्यन्तरिक्षासत् होतावेदिषत् वेदिषदतिथिः वेदिषदिति वेदीषत् अतिथिर्दुरोणसत् द्रोणसदिति दुरोणासत् नृषद्वरसत् नृषदिति नृसत् वरसदृदसत् वरसदिति वरासत् ऋतसद्व्योमसत् ऋतसदित्रितासत् व्योमसदब्जाः व्योमसदिति व्योमासत् अब्जा गोजाः अब्जा इत्यबुजाः गोजाद्रजाः गोजा इति गोजाः रतजा अद्रिजाः रतजा इत्यराजाः अद्रिजा ऋतम् अद्रिजा इत्यद्रीजाः ऋतम् बृहद् बृहदिति बृहद् युवस्परि परिप्रथमम् परिजातवेदाः जातवेदा इति जातावेदाः तृतीयमप्सौ अप्सुमणाः अप्सुत्यपुरसु रमणा अजस्रम् रमणा इति नृमणाः अजस्रमिन्धानः इन्धान एनम् एनम् जरते जरते स्वाधीः स्वाधीरिति स्वाधीः विद्माते ते अग्ने त्रयाणि त्रयाणि विद्मा विद्मातेः ते सद्म सद्मविभृतम् भिष्ञदं, विभृतम् बुत्रा विभृतमिति विभृतम् बुत्रेति पुरोत्रा विद्माते ते, ते नाम नाम परमम् रामम् गुहा गुहायत् यद्विद्म विद्मातम् तमुत्सं उत्संयतः यथा जगन्धा आजगन्धेत्या आजगन्ध समुद्रे त्वा द्रमणाः द्रमणा अप्सु द्रमणादिद्रमणाः अप्सन्दः अप्सिद्धपसु अन्तर्नृचक्षाः रजक्षा ईधे रजक्षा इति नजक्षाः ईधे दिवः दिवो अग्ने अग्न ओधन् ओधन्नित्यूधन् तृदीये त्वा त्वा त्वा रजसि रजसि रस्थिवागुंसम् तस्थिवागुंसमृतस्य ऋतस्य योनौः योनौ महिषाः महिषा अहिन्वन् अहिन्वन्नित्यहिन्वन् अक्रन्ददग्निः अग्निस्तनयन् स्तनयन्निव विवर्जोः गौः तीर्थः समञ्जन् समञ्जन इति समञ्जन् सद्यो ज्ञानः ज्ज्ञानो विद्धः युद्धो अक्षद अख्यदा आरोदसी रोदसी भानुना रोदसी इति रोदसी भानुनाभाति भात्यन्तः पावको अरतिः हरतिः सुमेधाः सुमेधामर्तेषु सुमेधा इति अग्निरमृतः अमृतोनि निधायि धायीति धायि इयर्तिधूमम् धूममरुषम् अरुषम् भरिभ्रत् भरिभ्रदत् उच्छुक्रेण शुक्रेण शोचिषाः शोचिषाद्याम् द्यामिनक्षद् इनक्षदितीनक्षद् विश्वस्य केतुः केतुर्भुवनस्य भुवनस्य गर्भः गर्भः आ रोदसी रोदसी अवृणात् रोदसी इति रोदसी जायमान, जायमान अभिनत, अभिनत परायन, परायन परायन इति जायमानः वीडिञ्चित् चिद्रिम् अद्रिमभिनत् अभिनत्पराजन् राजञ्जनाः परायन् इति पराजन् जनायत् यदग्निम् अग्निमयजन्त अयजन्त अय पञ्च पञ्चेति पञ्च श्रेणामुदारः उदारो धरुणः धरुणो रहीणाम् ना, रहीणाम् मनीषाणाम् मनीषाणाम् प्रार्पणः प्रार्पणः सोपगोपाः प्रार्पण इति प्रार्पणः सोपगोपाः वसोः सूनुः सोनुः सहसः सहसो अप्सु अप्सु राजा अप्सुत्यपोसु राजावि विभाति भात्यग्रे अग्र उषसाम् उषसामिधानः निधान इतिधानः यस्तेः ते अद्य अर्द्यकणवत् क्रणवद्भद्रशोचे भद्रशोचे, भद्रशोचे पूपम् भद्रशोच इति भद्राशोचे अपूपम् देव देव घृतवन्तम् अग्नैत्यग्ने प्रतम् तम् नय नय प्रतराम् प्रतराम् वस्यः प्रतरामिति प्रातराम् वस्योदच्छाभि अभिद्युम्नम् व्युम्नम् देवभक्तम् देवभक्तन्यष्ठ देवभक्तमिति देवाभक्तम् यविष्ठेति यविष्ठ आ तम् तम् भज भजसौश्रवसेषु सौश्रवसेष्वग्ने अग्न उक्थ उक्थे उक्थौत्थ आ आभज भज शस्यमाने शस्यमाने प्रियः सूर्ये प्रियः प्रियो अग्ना अग्ना भवाति उज्जातेन जातेन भिनदत् भिनदत् उज्जनित्वैः जनित्वैर्तिजनित्वैः त्वामग्ने अग्ने यजमानाः अनु अनुद्योन् विश्वाः विश्वावसूनि वसूनि दधिरे दधिरे वार्याणि वार्याणि तिवार्याणि त्वया सह सह द्रविणम् द्रविणमिच्छमानाः इच्छमानाः व्रजम् वृजम् गोमन्दम् गोमन्दमुषिजः वो मन्दरुजिगो मन्दम् उषिजोविवव्रुः ववृरिति वव्रुः वृशानो रुक्मः रुक्म उर्व्या उर्व्यावि द्विद्यौत् अद्यौ दुर्मर्षम् दुर्मर्षमायुः दुर्मर्षमिति दुहोमर्षम् आयुःश्रिये रुचानः रुचान इति अमृतो अभवत् अभवद्वयोभिः पयोभिर्यत् द्वयोभिरिवयहाभिः यदेनम् येनन्द्योः योरजनयत् अजनयत् सुरेताः सुरेता इति सूरेताः अन्नपतेऽन्नस्य अन्नपत इत्यन्नापतेः अन्नस्य नः नोदेहि देह्यनमेवस्य अनमेवस्य सुष्मिणः सुष्मिण इति सुष्मिणः प्रप्रदातारम् प्रदातारम् तादृशः प्रदातारमिति प्रदातारम् तारुषूर्जम् ऊर्जन्नः नोदेहि देहि द्विपदेः द्विपदे चतुष्पदे द्विपद इति द्वीपदेः चतुष्पद इति चतुःपदेः पुरु उक्त्वा देवाः देवाग्नेः अग्नेभरन्तु भरन्तु चित्तिभिः चित्तिभिरिति चित्तीभिः स नः न भव तव शिवतमः शिवतमः सुप्रतीकः शिवतम इति शिवातमः सुप्रतीको विभावसुः सुप्रतीक इदग्ने अर्ग्ने ज्योतिष्मान् ज्योतिष्मान् याहि या हि शिवेभिः शिवेभिरर्चिभिः अर्चिभिस्त्वम् अर्चिभिरित्यर्चिभिः त्वमिति त्वम् बृहद्भिर्भानुभिः बृहद्भिरिति बृहदेभिः भानुभिर्भासन् भानुभिरितिभानुभिः भासन्मा मा हिपुंसीः हिपुंसीस्तनुवाः समिधाग्निम् समिधेति संविधाः दुरस्य धृतैः घृतैर्बोधयत बोधयतातिथिम् अतिथिमित्यतिथिम् आस्मिन् अस्मिन् हव्या हव्याजिहोतन जुहोतनेतिजुोतन प्रयम् प्रप्रेयजिप्रा अयमग्निः अग्निर्भरतस्य भरतस्य शृण्वे शृण्वेऽपि वियत् यत्सूर्यः सूर्यो न रोचते रोचते बृहद्भाः भाविभाः अभियः यः पूर्वम् रूतनासु पृतनासु तस्थौ गीताय गीताय दैव्यः दैव्यो अतिथिः अतिथिः शिवः शिवोनः नैतिनः आपो देवीः देवीः प्रति प्रतिगृह्णीत गृह्णीतभस्म भस्मैतत् एतत् श्योने सुरभौ सुरभावौ लोके लोक इति लोके तस्मै नमन्ता नमन्ताञ्जनयः विनयः सुपत्नीः सुपत्नीरिर्माता सुपत्नीरचिसुपत्नीः मातेव इव पुत्रम् पुत्रम् विभ्रता विभ्रतासु स्वेनम् एनमित्येनम् अप्सु अग्ने अप्स्वित्यपसु अग्ने सधिः सधिष्ठव तव सः सौषधीः ओषधीरनु अनुरुध्यसे रुध्यस इति रुध्यसे गर्भे सन् सञ्जायसे जायसे पुनः पुनरिति पुनः गर्भोऽसि अस्य ओषधीनाम् ओषधीनाम् गर्भः गर्भो वनस्पतीनाम् वनस्पतीनामिति वनस्पतीनाम् विश्वस्य विश्वस्य भूतस्य भूतस्याग्नेः भूतस्या अग्ने गर्भः गर्भो अपाम् अपामसि असीद्यसि असी प्रसद्यभस्मना प्रसद्येतिप्रासद्य भस्मना योनिम् योनिमपः अपश्च पृथिवीम् पृथिवीमग्ने अग्नेत्यग्ने सगुंसृज्य मातृभिः सृंसृज्येति संसृज्य मातृभ्यस्त्वम् मातृभिरिति मातृभिः त्वम् ज्योतिष्मान् ज्योतिष्मान्पुनः पुनरा आसदः असदैत्यसः पुनरासद्य आसद्यसदनम् आसद्येत्या आसद्य सदनमपः अपश्च पृथिवीम् पृथिवीमग्ने अग्नैत्यग्ने शेषे मातुः मातुर्यथाः यथोपस्थेः उपस्थेन्तः उपस्थैत्युपास्थेः अन्तरस्याम् अस्याम् अस् शिवतमः शिवतम इति शिवातमः ऊर्ध्वानि निवर्तस्व वर्तस्व पुनः पुनर्डने इशायुषा इशा इषायुषा आयुषेत्यायुषा पुनर्नः नः पाहि पाहि विश्वतः विश्वत इति विश्वतः स दैयानि विवर्तस्व वर्तस्वाग्नेः अग्ने विन्वस्व विन्वस्वधारया धारयेति धारया विश्वप्स्निया धारये विश्वतः विश्वप्स्नियेति विश्वाप्स्न्यः विश्वतःपरि परेति परि पुनस्त्वा त्वादित्याः त्वादित्या रुद्राः रुद्रावसवः वसवःसम् समिन्धताम् इन्धताम् पुनः पुनर्ब्रह्माणः ब्रह्माणो वसुमेथ वसुमेथयज्ञैः वसुमेथेति वसुनीथ यज्ञैरिति यज्ञैः धृतेनत्वम् त्वम् तनुवः वर्धयस्व वर्धयस्व सत्याः सत्याः सन्तु सन्तु कामाः कामा इति कामाः वोधानः नो अस्य अस्य वचसः वचसो यविष्ठयविष्ठवगम्हिष्ठस्य अगम्हिष्ठस्य प्रभृतस्य सुधावः प्रभृतस्य यदि प्राभृतस्य सुधावः पीयदि त्वः अनुत्वः को गृणाति गृणादि वन्दारुः वन्दारुस्ते ते तनुवम् वन्दे वन्दे अग्नेः अग्न इत्यग्ने स बोधि बोधिसूरिः सूरिर्मघवाः मघवा वसुधावाः वसुधावा वसुपतिः वसुधावेति वसुधावाः वसुपतिरिति वसुपतिः योध्यस्मत् अस्मद्वेषागुंसि द्वेषागुंसिति द्वेषागुंसि अपेत इतबि वीत इतवि च सर्पता सर्पतातः अथो ये येऽत्र अत्रस्थस्थपुराणाः पुराणा ये ये च च नूतनाः नूतना इति नूतनाः तदादिदम् इदम् यमः यमोऽवसानम् अवसानम् पृथिव्याः अवसानमित्यवासानम् पृथिव्या रक्रन् अक्रन्मम् इमम् पितरः पितरो लोकम् लोकमस्मै अस्मा इत्यस्मै अर्ग्नेर्भस्म भस्मासि अस्यग्नेः अर्ग्नेः पुरीषम् पुरीशमसि असि सञ्ज्ञानम् सञ्ज्ञानमसि असि कामधरणम् कामधरणम् मयि कामधरणमिति कामाधरणम् ते कामधरणम् कामधरणम् भूयात् कामधरणमिति कामाधरणम् भूयादिति भूयात् संज्ञाः यावः अः प्रियाः प्रियास्तनुवः तनुवः सन् संप्रिया प्रियाहृदयानि हृदयानि वः वैति वः आत्मावः वोऽस्तु अस्तु संप्रियः सम्प्रियः सम्प्रियाः संप्रिय इति संप्रियः संप्रियास्तनुवः संप्रिया इति संप्रियाः तनुवो मम ममेति मम अयगुंसः सो अर्दिः अर्दिर्यस्मिन् यस्मिन् सोमुम् सोममिन्द्रः इन्द्रः सुतम् सुतम् दधे दधे जठरे जठरे वावशानः वावशान इति वावशानः सहस्रियम् वाजम् वाजमत्यम् अत्यन्न न सप्तिम् सप्तिगुम् ससवान् ससवान्सन् ससवानिति सङ्गमान् जातवेदः जातवेद अग्ने दिवः दिवो अर्णम् अर्णमच्छ रक्षा जिगासि जिगास्यच्छ रक्ष देवान् देवाकम् पूजिषे ऊजिषेधिष्ण्याः धृष्ट्याये य इति ये याः या परस्तात् परस्ताद्रोचने रोचने सूर्यस्य सूर्यस्याः सूर्य याश्च चावस्तात् अवस्तादुपतिष्ठन्ते उपतिष्ठन्दावः उपतिष्ठन्दत्युपातिष्ठन्ते आपैत्यावः अग्नेयत् यत्ते ते दिवि दिवि वर्चः वर्चः पृथिव्याम् पृथिव्याम् यत् यदोषधेषु ओषधीष्वप्सु अप्सुवाः अप्सुद्यपोसु वा यजत्र यजद्रेति यजत्रा येनान्तरिक्षम् ये ये अन्तरिक्षमुरु उर्वातन्था आतन्थ त्वेषः आततन्थेत्याततन्था त्वेषः सह स भानुः भानुवर्णवः अर्णवो नृचक्षाः नृचक्षा इति नृचक्षाः उरीष्यासो अर्डजः प्रावणेभिः सजोषसः रावणेभिरिति प्रापणेभिः सजोषस इति सा भव्यम् अव्यमाहुतम् आहुतमनमीवाः आहुतमित्याहुतम् अनमीवायषः इषो महीः महीरिति महीः इडामग्ने अग्ने पुरुदपुंसम् पुरुदपुंसकुंसनिम् पुरुदपुंसमिति पुरुदपुंसम् सरिङ्गोः गोः शश्वत्तमम् शश्वत्तमकुम्भवमानाय शश्वत्तममिति शश्वततमम् हवमानाय साध साधेति साध स्यान्नः नः सूनुः तनयो विजावा विजावाग्नेः vijave dev me java agne sa सातेः ते सुमतिः सुमतिर्भूतु सुमतिरिति सुमतिः अस्मे इत्यस्मे यजन्तेः ते योनिः योनिर्वृत्ययः ऋत्ययो यतः यतो जातः जातो अरोचथाः अरोचथा इत्यरोचथाः तञ्जानन् जानन्नग्ने जानन अग्ना आरोह रोहाथ रथानः नोमर्धया वर्धया रयिम् रयिमिति रयिम् शिलसि असितयाः तया देवतया देवतयाङ्गिरः सन् अङ्गिरस्वध्रुवा ध्रुवासीद सीतपरिषित् परिचिदसि परिषिदीपरिषित् असितया तया देवतया देवताङ्गिरस्वङ्गिरस्वध्रुवा ध्रुवासीद सीतलोकम् लोकम् प्रण प्रणच्छिद्रम् छिद्रम् वृण प्रणाथोः अथो सीद अथो इत्यथोः सीदशिवा शिवा त्वम् त्वमिति त्वम् इन्द्राग्मी त्वा इन्द्राग्मीति इन्द्राग्नी बृहस्पतिः बृहस्पतिरस्मिन् योनावसीषदन् असीषदित्यसीषदन् तारस्य अस्य सूददोहसः सूरदोहसः सोमम् सूरदोहस इति सूदादोहसः सोमद्विश्रीणन्ति श्रीणन्ति कृष्णयः कृष्णय इति कृष्णयः जन्मम् देवानाम् देवानाम् विशः विषस्त्रिषु त्रिष्वा आरोचने रोचने दिवः दिव इति दिवः समितम् इत पुंसम् सङ्कल्पेधा कल्पेधांसम् प्रियौ संप्रियौ रोजिष्णु संप्रियावधिसम्प्रियौ रोजिष्णु सुमनस्यमानौ रोजिष्णो इति रोजिष्णु सुमनस्यमानाविति सुमनस्यमानौ विषमूर्जम् ऊर्जमभि अभिसम्वसानौ सम्भानौ सम् सम्भसानाविति सम्वसानौ संवाहम् वाम् मनागुंसि मनागुंसि सम् संव्रता व्रता सं, चित्तान्या आकरम् अकरमित्यकरम् अग्ने पुरीष्य पुरेषाधिपाः अधिपा भव अधिपा इत्यधिपाः भवाम् त्वन्नः नैविनः यजमानाय यजमानाय धेहि धेहिदिधेहि प्रेष्यस्त्वम् त्वमग्ने अग्ने रयिमान् रयिमान् पुष्टिमान् रैमालितिरयीमान् पुष्टिमागम् असि पुष्टिमालितिपुष्टिमान् असीत्यसि कृत्वा कृत्वा दिशः दिशः सर्वाः योनिमिह यहा आसदः असद इत्यसदः भवतन्नः नः समनसौ समनसौ समोगसौ समनसा विति सम्मोगसौ रेपसाविद्यरेपसौ मा यज्ञम् यज्ञकम् हिगंशिष्टम् हिगंशिष्टम् मा यज्ञपतिम् यज्ञपतिम् जातवेदसौ यज्ञपतिमिति यज्ञापतिम् जातवेदसौ शिवौ जातवेदसाविति जातावेदसौ शिवौ भवतम् भवतमद्य अज्ञनः नैलिनः मातेव इव पुत्रम् पुत्रम् पृथिवी पृथिवी पुरीष्यम् पुरीष्यमग्निम् अग्निग्स्वे स मुखेत्युखा ताम् विश्वैः विश्वैर्वेवैः देवैर्ऋतुभिः ऋतुभिः संविधानः ऋतुभिर्तिरोभिः संविधानः प्रजापतिः संविधान इति संविधानः प्रजापतिर्विश्वकर्मा प्रजापतिरिति प्रजापृतिः विश्वकर्मेऽपि विश्वकर्मेति विश्वाकर्माः विमुञ्चतु मुञ्चत्वितिमुञ्चतु यदस्य अस्य पारे पारे रजसः रजसः शुक्रम् शुक्रम् ज्योतिः ज्योतिरजायत रजायतेऽ्यजायत तन्नः नः परिषत् परिषदिषः विषोऽग्ने अग्ने वैश्वादर वैश्वादर स्वाहा स्वाहेति स्वाहा सु सुतेः ते निर्वृते निर्वृते विश्वरूपे निर्वृतैति निहीते विश्वरूपे यस्मयम् विश्वरूपेति विश्वारूपे अयस्मयम् विश्रितश्रिताबन्धम् बन्धमेतम् एतमित्येतम् हिमेन त्वम् त्वं संविधाना संविधानोत्तमम् संविधानेति संविधाना उत्तमम् नाकम् उत्तममित्युत्तमम् नाकमधि अधिरोहय लोहयेमम् वृत्तेः ते देवी देवी निरृतिः निर्वृतिराबन्ध निरृतिरितिनिरुतिः आवबन्धदाम आबन्धेत्याः बबन्ध रामग्रीवासु ग्रीवास्वपिचर्त्यम् अपि चमित्यपि चर्त्यम् विदन्तेः ते तत् तद्विष्यामि स्याम्यायुषः आयुषो न अमध्यात् मध्यादथा अथा जीवः जीवः पितुम् पितुमद्धि वध्यप्रमुक्तः प्रमुक्तः इति प्रामुक्तः यस्यास्ते ये अस्याः अस्याः क्रूरे क्रूर आसन् आसन् जोमि मी, जहोम्येषाम् येषाम् बन्धानाम् बन्धानामवसर्जनाय अवसर्जनाय इत्यपसर्जनाय भूमिरिति युरित्वाजनाः जनाविदुः विदुर्मिलृतिः निरुतिरिति निरुतिरि युरित्वा त्वा त्वा त्वा त्वा त्वा त्वाहम् वेद वेदविश्वतः विश्वत विश्वतः असंवन्दमेजमानम् येजमानमिच्छ इच्छस्तेनस्य स्तेनस्येत्या इत्याम् तस्करस्य तस्करस्या नो अन्वेषि एषि इत्येषि अन्यमस्मद् अस्मदिच्छ इच्छसा ते तैद्या इत्यानमः नमो देवि देवि निरवृते निरवृते तुभ्यम् निरवृतेतिनिहीते तुभ्यमस्तु अस्ति इत्यस्तु देवीमहम् अहम् निरवृतिम् निरवृतिम् वन्दमानः निरकृतिमितिनिःतिम् वन्दमानः पिता पितेव इव पुत्रम् पुत्रम् दशये दशये वचोभिः वचोभिरिति वचःभिः विश्वस्य या या जायमानस्य जायमानस्य वेद वेदशिरशिरः शिरशिरः प्रतिशिरशिर इति शिरः शिरः प्रतिसूरी सूरीवि विचष्टे चष्टैति चष्टे निवेशनः सङ्गमनः निवेशन इति निवेशनः सङ्गमनोऽवसूनाम् सङ्गमन इति वसूनाम् विश्वाः विश्वारूपा रूपाभि अभिचष्टे चष्टे शचीभिः शचीभिरिति शचीभिः देव इव इव सविता सविता सत्यधर्मा सत्यधर्मेन्द्रः सत्यधर्मेति सत्याधर्माः इन्द्रो न तस्थौ तस्थौ समरे समरे पथीनाम् समर इति समरे पथीनामिति पथीनाम् संवरत्राः न रत्रा दधातन दधातमनिः निराहावान् आहावान् प्रणोदन कृणातनेति कृणातने सिञ्चामः अभटम् अवटमुद्रिणम् उद्रिणम् वयम् वयम् विश्वाह विश्वाहा अहारस्तम् अदस्तमक्षितम् अक्षितमित्यक्षितम् निष्कृताः वटम् निष्कृताः निष्कृतावटकं सुभरत्रनम् सुभरत्रकम् सुसेचनम् सुभरत्रमिति सुभरत्रम् सुसेचनमिति सुसेचनम् उद्रिणकुम् सिञ्चे सिञ्चे रक्षितम् अक्षितमित्यक्षितम् सीरा युञ्जन्ति युञ्जन्ति कवयः कवयो युगा युगावि वितन्वते तन्वते पृथक् पृथगिति पृथक् धीरा देवेषु देवेषु संलया संलयेति सुंनयासीराः सीरावि वियुगा युगातनोत तनोतकृते कृते योनौ योनौ भवपत पपतेह इह बीजम् गिराज च सृष्टिः सृष्टिः सभराः सभरासत् सभरा इति सा भराः प्रसन्नः नो नेदीयः नेदीयत् यत्सृण्याः सृण्यापक्वम् पक्वमा आयत् अयदित्ययत् लाङ्गलम् पवीरवम् पवीरवकम् सुषेवम् सुषेवकम् सुमदित्सरु सुषेवमिति सुशेवम् सुमदित्सर्विति सुमदीत्सरु उदित यत्कृषति कृषति वामविम् अविम्रथव्यम् प्रभव्यम् च प्रभव्यमिति प्राथव्यम् च पीवरी पीवरीमितिपीवरी प्रस्थापद्रथवाहनम् प्रस्थापदिति प्रस्थापत् रथवाहनमिति रचावाहनम् शुनम् नः नः फाला आह फालावि इति कीलाशा आह कीलाशा अभि अभिजन्तु किन्तु वाहान् वाहामिति भोमिं, अधुनापयोभिः अजोभिः शुनासीना अजोभिरितिपयहाभिः सुनासीरा शृणम् शृनमस्मासु अस्मासु धत्तम् धत्तमिति धत्तम् कामम् कामदुघे कामदुघे धुक्ष्व कामदुघेति कामादुघे धुक्ष्वमित्राय मित्राय वरुणाय वरुणाय चेति च इन्द्रायाग्दये अर्दये पूर्ष्णे पूष्ण ओषधीभ्यः ओषधेभ्यः प्रजाभ्यः ओषधीभ्यैत्यौषधीभ्यः प्रजाभ्यैति कृतेन सीता सीता मधुना मधुना समक्ता समक्ता विश्वैः समग्रे समक्ता विश्वैर्देवैः देवैरनुमदा अनुमदा मरुद्भिः अनुमतेत्यनुमदा मरुद्भिरिति मरुतोर्भिः ऊर्जस्वती पयसा पयसा पिन्वमाना पिन्वमानास्मान् अस्मान्सीते सीते पयसा पयसाभ्याववृत्सा अभ्याववृत्स्भिवृत्सा या जाताः जाता ओषधयः ओषधयो देवेभ्यः देवेभ्यस्त्रियुगम् त्रियुगम् पुरा त्रियुगमिति त्रियुगम् पुरेति पुरा मन्दामि बभ्रूणाम् बुभ्रूणामहम् अहगं शतम् शतम् धामानि धामानि सप्त सप्त चेति च शतम्बः वो अम्ब अम्बधामानि धामानि सहस्रम् सहस्रमुत उतवः गोरुहः रुह इति रुहः अथाशतक्रत्वः शतक्रत्वो यूयम् यूयमिमम् इमम् मे मे अगदम् अगदम् कृत कृतेति कृत पुष्पावतीः प्रसोपतीः पुष्पावतीरति पुष्पावतीः प्रसोपतेः फलिनीः प्रसोपतेरतिप्रासोपतीः फलिनीरफलाः अफला उदा कृतेत्युता अश्वा इव इव सजित्वरीः सजित्वरीर्वीरुधः सजित्वरीरति सजित्वरीः वेरुधः पारयिष्णवः पारयिष्णव इति पारयिष्णवः ओषधीरि इति मादरः मातरस्तत् तद्वः वो देवीः देवीरुप उपब्रुवे ब्रुव इति ब्रुवे प्रपागंसि विघ्नतीः विघ्नतीरित विघ्नतीरिति विघ्नतीः इतरपः तपश्चातयमानाः चातयमानाः अश्वत्थेवः वो निषदनम् निषदनम् पर्णे निषदनमिति निसदनम् पर्णेवः वो वसतिः वसतिः कृता कृतेति कृता वो गोभाज इति गोभाजः यत्किल किला सथ असथयत् यत्सनपथ अहम् वाजयन् वाजयन्निमाहमा ओषधीः ओषधीर्हस्ते हस्तादधे आदधय आदधे आत्मा यक्ष्मस्य यक्ष्मस्य नश्यति नश्यति पुरा पुरा जीवगृभः जीवगृभो यथा जीवगृभ इति जीवागृभः यथेति यथा यदौषधयः ओषधयः सङ्गच्छन्ते सङ्गच्छन्ते राजानः सङ्गच्छन्त इति सङ्गच्छन्ते राजानः समितौ समिताविव समिताविति सङ्गतौ इरेतीव विप्रः सह स उच्यते उच्यते भिषग् भिषग्रक्षोः रक्षोहामीव चातनः रक्षोहेति रक्षो रक्षाः अमीव चातन इत्यमीव चातनः निष्कृतिरिः कृतिः नामवः वो माता माताथ अथा यूयम् योयग्रस्थ स्थसङ्कृतिः सङ्कृतेः सरास्पदत्रणीः प्रदत्त्रणीः स्थन स्थन यदामयति आमयतिनिः निष्कृता कृतेति कृत वो अन्याम् अन्यामवतु अवत्कन्या अन्यान्यस्या अन्यस्या उप उपावत अवतेत्यवत ताः सर्वाः सर्वा ओषधयः ओषधयः संविधानाः संविधाना इदम् संविधानादिति संविधानाः इदम् मे मे प्रावत अवतावचः वच इति शुष्मा ओषधीनाम् ओषधीनाम् गावः गावो गोष्ठात् इवेरते ईडत इतीरते धनकम् सनिष्यन्तीनाम् सनिष्यन्तीनामात्मानम् आत्मानन्दव तव पूरुष पूरुषेति पूरुष अधिविश्वाः विश्वाः विश्वा परिष्ठाः परिष्ठास्तेनः परिष्ठा इति परीस्थाः स्तेन इव व्रजम् व्रजमक्रमुः अक्रमुरित्यक्रमुः अक्रम ओषधयःप्र प्राचुच्यपुः अचिच्यभुर्यत् यत्किम् किञ्च च तनुमानम् रप इति रवः तातस्थुः आतस्थुरात्मानम् आतस्थुरित्या आतस्थुः आत्मालिङ्गाः या आविविशुः आविविशुः परुःपरुः आविविशुरित्या आविविशुः परुःपरुरिति परुः परुः तास्ते ते यक्ष्मम् यक्ष्मम् वि विबाधन्ताम् बाधन्तामुग्रः उग्रो मध्यमशीः मध्यमशीरिव मध्यमशीरिति मध्यमाशीः इवेतीव साकम् यक्ष्म यक्ष्मप्रपदपदः श्येन शेन किकि दीविना किकि दीविनेति किकि दीविना साकम् वातस्य वातस्य ध्राज्या ध्राज्य साकम् साकम् नश्च नश्च निहाकया निहाकयेति निहाकया अश्वावतीगुम् सोमवतीम् अश्वावतीमित्यश्वावतीम् सोमवतीमूर्जयन्तीम् सोमवतीमिति सोमावतीम् ऊर्जयन्ती मुदोजसम् पदोजसमित्युत् ओजसम् <laughs> आवित्सि वित्सि सर्वाः सर्वा ओषधीः सर्वा ओषधीरस्मै अस्मारिष्टतातये अरिष्टतातय इत्यरिष्टातातये याः फलिनीः फलिनीर्याः या फलाः अफलाः पुष्पाः पुष्पायाः याश्च पुष्पिणीः पुष्पिणीर्यिपुष्पिणीः बृहस्पतिप्रसूतास्ताः बृहस्पतिप्रसूता ये बृहस्पतिप्रसूताः तानः नो मुञ्चन्तो मुञ्चन्त्वगंहसः अगुम्हस इत्यगंहसः या ओषधयः ओषधयः सोमराज्ञीः सोमराज्ञीः प्रविष्टाः सोमराज्ञैरिति सोमराज्ञीः प्रविष्टाः पृथिवीम् प्रविष्टा यदि प्रविष्टाः पृथिवीमनो अन्वित्तिनो तासाम् त्वम् त्वमसि अस्युत्तमा उत्तमा प्र उत्तमेत्युतोत्तमा प्रणः नो जीवातवे जीवातवे स्ववेति स्वा अवपतन्तीरवदन् अपपतन्तीरित्यवापतन्तीः अपदन्तिवः दिव ओषधयः ओषधयः परि परीति परि यञ्जीवम् जीवमश्नवामहै अश्नवामहैन अश्नवा न सह सरिष्यादि निश्यादि कूरुषः कूरुष इति कूरुषः याश्च चेदम् इदमुपशृण्वन्ति उपशृण्वन्ति याः उपशृण्वन्तित्युपशृण्वन्ति उबश्रंदित्य। याश्च च दूरम् दूरम् परागताः परागता इति परा आगताः यः सङ्गत्या सङ्गर्गताः सङ्गत्य सङ्गत्या ताः सर्वाः सर्वा अस्मै अस्मै सम् सन्दत्त दत्त भेषदम् भेषदमिति भेषितम् मा वः ओरिषत् रिषत्खनिता यस्मै च चाहम् अहम् खनामि खनामि वः व द्विपदिति द्वीपद् चतुष्पदस्माकम् चतुष्पदिति चतुः पद् अस्माकम् सर्वम् सर्वमस्तु अस्त्वनातुरम् अनातुरमित्यनातुरम् ओषधयः सम् संवदन्ते वदन्ते सोमेन सोमेन यस्मै करोति करोति ब्राह्मणः ब्राह्मणस्तम् तविम् पालयामसीति पालयामींसीत्सीजनिता जनितायः यः पृथिव्याः पृथिव्यायः योगाः वादिवम् विवकम् सत्यधर्मा सत्यधर्मा जान सत्यधर्मेति सत्याधर्माः जजानेति जान यश्च चापः अपश्चन्द्राः चन्द्राबृहतीः बृहदीति जान्यजानकस्मै कस्मै देवाय देवाय हविषाः अविषाविधेम विधेमेति विधेम अभ्यावर्तस्व पृथिवी अभ्यावर्तस्वेत्यभि आवर्तस्व पृथिवी यज्ञेन यज्ञेन पयसा प्रयसा सह सहेति सह उपान्तेरे ते अग्निः अग्निरिषितः इषितो वा अपसर्पतु सर्पत्विति ते शुक्रम् शुक्रञ् यच्चन्द्रम् चन्द्रञ्जत् यत्पूतम् पूतञ्जत् यद्यज्ञयम् यज्ञियमिति यज्ञियम् तद्देवेभ्यः देवेभ्यो भरामसि भरामसीति भरामसि इषमूर्जम् ऊर्जमहम् अहमितः इतः आददे ऋतस्य ऋतस्य धाम्नः अमृतस्य अम्रतस्य अमृतस्य योनेः योनेरिति योनेः आनः नो गोषु ओषुविषतु विषत्वा जहामि जहामि सेदिम् सेदिमनिराम् अनिरामीवाम् अमीवामित्यमीवाम् अमी तव श्रवः श्रवो वयः वयो महि महिभ्राजन्ति भ्राजन्त्यर्चयः अर्चयो विभावसो विभावसो बृहद्भानो शवसा बृहद्भानोरि बृहद् भानो शवसा वाजुम् वाजमुक्थ्यम् उत्थ्यम् दधासि दाशुषे दाशुषे कवे कव इति कवे विरज्यन्नग्ने अर्ग्ने प्रथयःस्व प्रथयस्व जन्तुभिः जन्तुभिरस्मे जन्तुभिरिति अस्मे इत्यस्मे रायोमर्त्य अमर्थेत्यमर्त्य सदर्शदस्य दर्शदस्य वपुषः वपुषोऽपि विराजसि राजसि प्रक्षि प्रक्षिसा नसिम् सानसिं रयिम् रयिमिति रयिम् ऊर्जोनपात् नपाज्जातवेदः जातवेदस्सुषस्तिभिः जातवेद इति जातावेदः सुषस्तिभिर्मन्दस्व सुषस्तिभिरितिसुषस्तिभिः त्वे इषः त्वे इति त्वे इषः सम् सन्दधुः रर्भूरिरेतसः भूरिरेतसश्चित्रोदयः भूरिरेतस इति भूरिरेतसः चित्रोदयो वामजाताः चित्रोदय इति चित्रावूतयः जा. वामजाता इति वामाजाताः पावकवर्चाः शुक्रवर्चाः पावकवर्चा इति पावकावर्चाः शुक्रवर्चा अनूनवर्चाः शुक्रवर्चा इति शुक्रावर्चाः अनूनवर्चा इत्यनूना वर्चाः उदियर्षि इयर्षि भानुना भानुनेति भानुनाः पुत्रः पितराः पितरा विचरन् पितरा विचरन्नपा विचरन्न विचरन्निति विचरन् उपावसि उपस्युभे उभे पृणक्षि उभे इत्युभे विश्वजर्षणिमिति विश्वाचर्षिम् अग्निगम् सुम्नाय सुम्नाय दधिरेधिरे पुरः पुरोजना आह जना इति जनाः श्रुत्करणघम् सप्रथस्तमम् श्रुत्कर्णमिति श्रुतकर्णम् सप्रथस्तवम् त्वा सप्रथस्तवमिति सप्रथमम् त्वा गिरा गिरा दैव्यम् दैव्यम् मानुषा मानुषा युगा युगेति युगा निष्कर्तारमध्वरस्य निष्कर्तारमिति कर्तारम् मध्वरस्य प्रचेतसम् प्रचेतसङ्क्षयन्तम् प्रचेतसमिति प्राचेतसम् श्रयन्तकम् राधसे राधसे महे मह इति महे रातिम् भृगूणाम् भृगूणामुषितम् उषितम् कविकृतम् कविकृतम् प्रणक्षि कविक्रतमिति कविकृतम् प्रणक्षि सा लम् सा लकम् रयिम् रयिमिति रयिम् चितस्थस्थपरिचितः परिचित ऊर्ध्वजितः परिचित इति परिचितः ऊर्धचितश्रयध्वम् ऊर्ध्वजित इत्यूर्ध्वरचितः श्रयध्वन्तयाः तया देवतया देवतयाङ्गिरस्वङ्गिरस्वध्रुवाः ध्वाः सीदत सीदतेति सीदता आप्यायस्व समेतो हेतुते विश्वतः विश्वतः सोम सोमवृष्णियम् वृष्णियमिति वृष्णियम् भवा वाजस्य वाजस्य सङ्गथे सङ्गथ इति संरथे संवे ते समो भुजन्तु यन्तु वाजाह वाजाः सन् संरष्णियानि वृष्णीयान्यभिमादृशाः आप्यायमानो अमृताय आप्यायमान इत्या आप्यायमानः अमृताय सोम सोमदिवि दिविश्रवागम्सि श्रवाकस्य उत्तमानि उत्तमानि धिष्व उत्तमानि इत्युतोत्तमानि धिष्वेति धिष्वा अभ्यस्तात् अस्थाद्विश्वाः विश्वाः प्रतमाः प्रथमा अराधीः रधीस्तत् तदग्निः अग्निराः आह तत् तदु सोमः आहेत्याह बृहस्पतिः सविता सविता तत् तन्मे माह आह पूषा पूषा मा माधात् अथात् सुकृतस्य सुकृतस्य लोके सुकृतस्येति सुकृतस्य लोक इति लोके यदक्रन्दः अक्रन्दः प्रथमम् प्रथमम् जायमानः जायमान उद्यन् उद्यान्समुद्रात् उद्यन्नित्युदजन् समुद्रादुत उत वा पुरीषात् पुरीषाद् त्रिपुरीषात् श्येनस्य पक्षाः पक्षाः ऋणस्य बाहू बाहू उपस्तुतम् बाहू इति बाहू उपस्तुतम् जनिम उपस्तुतमित्युपास्तुतम् जनिम तत् तत्ते अर्वन् अर्वन्नित्यर्वन् अपाम् पृष्ठम् पृष्ठमसि असि योनिः योनिरग्नेः अग्नेः समुद्रमभितः अभितः पिंवमानमिति पिम्बमानम् वर्धमानम् महः मह आचुष्करम् पुष्करम् दिवः दिवो मात्रया मात्रया वरिणा वरिणा प्रथस्व प्रथस्वेति प्रथस्व ब्रह्मजज्ञानम् जज्ञानम् प्रथमम् प्रथमम् पुरस्ताद् पुरस्ताद्विसीमतः सीमतः सुरुचः सुरुचो वेनः सुरुच इति सौरुचः वेन आवह आवलित्यावहः स बुध्नया आह उपमाः उपमा उपमा इत्युपामाः अस्य विष्ठाः इष्ठासतः अविष्ठा इति वीस्थाः सतश्च च योनिम् योनिमसतः असतश्च च विवह विवः हिरण्यगर्भस्सम् हिरण्यगर्भ इति हिरण्यगर्भः समवर्तत अवर्तताग्रे अग्रे भूतस्य भूतस्य दातः दातः पतिः पतिरेकः एक आसीत् आसीदित्यासीत् सदाधार दाधारपृथिवीम् पृथिवीन्द्याम् द्यामुत उतेमाम् इमाङ्कस्मै कस्मै देवाय देवाय हविषाः हविषा विधेम विधेमेति विधेम दप्सश्च स्कन्द चकन्द पृथिवीम् पृथिवीमनु अनुद्याम् द्यानिमम् इमम् च योनिम् योनिमनुजः यश्च च पूर्वः पूर्व इति पूर्वः तृतीयम् योनिम् योनिमनु सञ्चरन्तमिति संसरन्तम् दर्प्सम् जुहोमि जुहों जुनो अनुसप्तसप्तहोत्रा आह होत्रादिहोत्रा आह नमो अस्तु अस्तु सर्पेभ्यः सर्पेभ्यो ये एके, ये के च के च पृथिवीम् पृथिवीमनु अन्वित्यनु ये अन्तरिक्षे अन्तरिक्षे ये हे दिवि दिवि तेभ्यः सर्पेभ्यः सर्पेभ्यो नमः नम इति नमः ये दह अतो रोचे रोच्ने दिवः दिवो ये ये वा सूर्यस्य सूर्यस्य रश्मिषु रश्मिष्विति रश्मिषु येषामप्सु अप्सु सदः अप्सित्यपोसु सदः कृतम् कृतम् तेभ्यः तेभ्यः सर सर्पेभ्यः सर्पेभ्यो नमः नम नमः या इषवः इषवो यातुधानानाम् यातुधानानाम् या या ये यातुधानानामिति यातुधानानाम् ये वा वनस्पतीने वनस्पतीगुम्रनु अन्वित्यनु ये वा आवटेषु अवटेषु शेरते शेरते तेभ्यः तेभ्यः सर्पेभ्यः सर्पेभ्यो नमः नम इति नमः ध्रुवासि असि धरुणा धरुणास्तृता अस्त्रदा विश्वकर्मणा विश्वकर्मणा सुकृता विश्वकर्मणेति विश्वाकर्मणा सुकृतेति सुकृता मा त्वा त्वा समुद्रः समुद्र उद् उर्वधीर्वधीन्मा मा सुवर्ण इति सुपर्णः अव्यधमाना पृथिवीम् पृथिवीन्दृगृंह तृबृंहेति दृगृह्ण प्रजापतिस्त्वा प्रजापतिरिति प्रजापतिः त्वा साधयतु साधयतु पृथिव्याः पृथिव्याः पृष्ठे पृष्ठे यजस्वतीम् यजस्वतीम् रथस्वतीम् रथस्वतीम् रथः असि पृथिवी पृथिव्यसि असि भूः भूरसि असि भूमिः भूमिरसि अदितिरसि असि विश्वधायाः विश्वधाया विश्वस्य विश्वधाया इति विश्वाधायाः विश्वस्य भुवनस्य भुवनस्य धर्त्री धर्त्री पृथिवीम् पृथिवीम् यच्छ यच्छ पृथिवीम् पृथिवीम् नृगुह्ह दृगुम्ह पृथिवीम् पृथिवीम् मा हिगुंसीः हिगुंसीर्विश्वस्मै विश्वस्मै प्राणाय प्राणाय पानाय प्राणायति प्रा अनाय अपानाय व्यानाय अपानायत्यपा अनाय व्यानाजो दानाय व्यानायति उदानाय प्रतिष्ठायै उदानायत्युत् अनाय प्रतिष्ठायै चरित्राय प्रतिष्ठाघाप्रतिष्ठायैः चरित्रायाग्निः अग्निस्त्वा त्वाभि अभिपातु अग। पातु मह्या मह्या स्वस्त्य स्वस्त्या छर्दिषाः छर्दिषा शन्तमेन शन्दमेनतया शन्दमेने द्विषान्तमेन तया देवतया देवतयाङ्गिरस्वत् अङ्गिरस्वद्ध्रुवा ध्रुवा सीद सीदेति काण्डा अत्काण्डात् प्ररोहन्ती काण्डा अत्काण्डादिति काण्डात् काण्डात् प्ररोहन्ती परुषःपरुषः प्ररोहन्तीति प्रारोहन्ति परुषः परुषः परि परुषःपरुष इति परि एवानः दो दूर्वे दूर्वे प्रतनु तनुसहस्रेण सहस्रेण शतेन शतेन च चेति च या शतेन शतेन प्रतनोषि प्रतनोषि प्रतनोषीति प्रातनोषि सहस्रेण विरोहसि विरोहसीति विरोहसि तस्यास्ते ते देवि देवीष्टके इष्टके विधेम विधेम हविषा हविषा वयम् वयमिति वयम् अषाढासि असि सहमाना सहमाना सहस्व सहस्वारातीः अरातीः सहस्व सहस्वारातीयतः रतीयतः सहस्व सहस्वपृतनाः पृतनाः सहस्व सहस्वपृतन्यतः प्रतन्यत इति प्रतन्यतः सहस्रवीर्यासि सहस्रवीर्येति सहस्रावीर्याः असि सा मा जिन्वा जिन्वेति जिन्व मधुवाताह वाता ऋताजते ऋतायते मधु ऋतायत त्रिताजते मधुक्षरन्ति क्षरन्ति सिन्धवः सिन्धव इति सिन्धवः माध्वीर्णः नः सन्तु सन्तोषधीः ओषधीरित्योषधीः मधु नक्तम् नक्तमुत उतोषसि ओषसि मधुवत् मधुमनिति मधूमन् पार्थिवगुम् रजः रज इति रजः मधुद्यौः द्यौरस्तु अस्तु नः नः पिता पितेति मधुमानिति मधुमान् नो वनस्पतिः वनस्पतिर्मधुमान् मधुमागुम् अस्तु सूर्यैति सूर्यः माध्वीर्गावः रावो भवन्तो भवन्तु नः न इदु नः महीद्योः द्योः पृथिवी पृथिवी च च नः न इमम् इमं यज्ञम् यज्ञम् विवीक्षताम् विवीक्षतामिति विवीक्षताम् विभृतान्नः मो भरीमभिः तद्विष्णोः विष्णोः परमम् परमम् पदम् पदकम् सदा सदा पश्यन्ति पश्यन्ति सूरयः सूरय इति सूरयः दिवीव इव आततमित्यातम् ध्रुवासि असि पृथिवी पृथिभिः सहस्व सहस्व पृतव्यतः प्रतन्यत इति पृतन्यतः स्यूता देवेभिः देवेभिरमृतेन अमृतेन आगाः अगा इत्यगाः यास्ते ते अग्ने अग्ने सूर्ये सूर्ये रुचः रुच उद्यतः उद्यतो दिवम् उद्यत इत्युतो यतः दिवमातन्वन्ति आतन्वन्ति रश्मिभिः आतन्वन्तीत्यातन्वन्ति रश्मिभिरिति रश्मिभिः ताभिः सर्वाभिः सर्वाभिरुचे रुचे जनाय जनाजनः अस्कृधि कृधीति कृधि या वः ओ देवाः देवाः सूर्ये सूर्ये रुचः रुचोगोषु ओश्वेषु अश्वेषु याः इति रुचः इन्द्राग्नी ताभिः इन्द्राग्नी इतिन्द्राग्निः त्त बृहस्पतेः बृहस्पत इति बृहस्पते विराड्ज्योतिः विराडिति वीराण् ज्योतिरधारयत् अधारयत्सम्राण् सम्राट्ज्योतिः सम्राडिति सम्राड् ज्योतिरधारयत् अधारयत्स्वराड् स्वराड्ज्योतिः स्वराडिति अग्ने युक्ष्व योक्ष्वा ये ये तव तवाश्वासः अश्वासो देव देवसाधवः साधव इति साधवः अरम् वहन्त्याशवः आशव इत्याशवः युक्ष्वा हि हि देवहूतमान् देवहूतमागुम् अश्वान् देवहूतमानिति अश्वागुम् अग्ने अग्ने रथीः रथीरिव इवेतीव विहोता होता पूर्व्यः पूर्व्यः सद इति सदः तपसश्च स्कन्द च स्कन्द पृथिवीम् पृथिवीमनु अनुद्याम् द्यामिमम् इमम् च योनिम् योनिमनु अनुयः यश्च चमूर्भः पूर्व इति पूर्वः तृतीयञ्जोनिम् योनिमनु अनुसञ्चरन्तम् सञ्चरन्तम् द्रप्सम् सञ्चरन्तमिति संचरन्तम् द्रप्सम् जुहोमि जुहोम्यनौ अनुसप्त सप्तहोत्रा आह होत्रा इति विश्वस्य विश्वस्य भुवनस्य भुवनस्य वाजिनम् वाजिनमग्नेः अग्नेर्वे ईश्वरस्य वैश्वानरस्य चेति च अग्निर्ज्योतिषा ज्योतिषा ज्योतिष्मान् ज्योतिष्माम् रुक्मः रुक्मा वर्चसा वर्चसा वर्चस्वान् वर्चस्वानिति वर्चस्वान् रुचेत्त्वाः त्वारुचे रुचेत्वाः त्वासम् समित् सरितः सरितोना न धेनाः धेना इति धेनाः अन्तर्हृदा हृदा मनसा मनसा पूयमानाः पूयमाना इति पूयमानाः कृतस्य धाराः धारा अभि अभिचाकशीमि चाकशीमीति चाकशीमि इरण्यो मध्ये यत् मध्य तस्मिन् सुपर्णः सुपर्णा मधुकृत् सुपर्ण इति सुपर्णः मधुकृत्कुलायी मधुकृदिति मधुकृत् कुलायी भजन् मधु मधुदेवताभ्यः देवताभ्य इति तस्यासते आसते हरयः हरयः सप्त सप्ततीरे तीरे स्वधाम् स्वधाम् दुहानाः स्वधामिति स्वाधाम् अमृतस्य अमृतस्य धाराम् धारामिति धाराम् आदित्यम् गर्भम् गर्भम् पयसा प्रयसा समञ्जन् समञ्जन्सहस्रस्य समञ्जन्मिति सम्मञ्जन् सहस्रस्य प्रतिमाम् प्रतिमाम् विश्वरूपम् प्रतिमामिति प्रतिमाम् परिवृन्धि वृन्धिहरसा हरसा माभि अभिवृक्षः वृक्षः शतायुषम् शतायुषम् कृणिहि शतायुषमिति शतायुषम् कृणहि चीयमानः क्षीयमान इति चीयमानः इमम् मा हिगुंसीः हिगुंसीद्विपादम् द्विपादम् पशूनाम् द्विपादमिति द्विपादम् पशूनागुम् सहस्राक्ष सहस्राक्ष मेधे सहस्राक्षे द्विसहस्राक्ष मेधा आचीयमानः चीयमान इति मयुमारण्यम् आरण्यमनु अनुते ते दिशामि दिशामि तेन तेन चिन्वानः चिन्वानस्तनुवः तनुभोनि निषीद सीदेति सीद वातस्य ध्राजिम् ध्राजिम् वरुणस्य वरुणस्य नाभिम् नाभिमश्वम् अश्वम् जज्ञानम् यज्ञानकम् सरीलस्य शरीरस्य मध्ये सरी मध्येति मध्ये शिशुम् नदीनाम् नदीनागुम्हरिम् हरिमद्रिबुद्धम् अद्रिबुद्धमग्नेः अद्रिबुद्धमित्यद्रिबुद्धम् अग्ने माहिपुंसीः हिपुंसी परमे परमे व्योमन् व्योमन्नि दिवी वोमन् इबम् माहिपुंसीः इपुंसीरेकशपम् एकशभम् पशूनाम् एकशपमित्येकाशपम् पशूनाम् कणि कृतम् कणि कृतम् वाजिनम् वाजिनम् वाजिनेषु वाजिनेष्विति वाजिनेषु आरण्यमनु अनुते ते दिशामि दिशामि चिन्वानस्तनुवः तनुभोगि निषीद सीदेऽति सीद अजस्रमिन्दुम् इन्दुमरुषम् अरुषम् भुरण्युम् भुरण्युमग्निम् अग्निमीडे क्रीडे पूर्वचित्तौ ऊर्वचित्तौ नमोभिः ऊर्वचित्तादिपूर्वाचित्तौ नमोभिरिति नमःभिः सपर्वभिः पर्वभिर्दुषः भे, अर्वभिरितिपर्वाभिः ऋतुषः कल्पमानः ऋतुषयुषः कल्पमानो नाम् नाम् मा, मा हिकुंसी अदितिम् विराजम् विराजमिति विराजम् इमकम् समुद्रम् समुद्रकम् शतधारम् शतधारमुत्सं शतधारमिति शताधारुम् उत्सम् यच्यमानम् यच्यमानम् भुवनस्य व्यच्यमानमिति वि अच्यमानम् भुवनस्य मध्ये मध्य इति मध्ये घृतम् गुहानाम् गुहानामदितिम् अदितिम् जनाय जनायाग्नेः अग्ने मा हि पुंसीः पुंसीः परमे परमे व्योमन् व्योमन्निति वि वोमन् गभयमारण्यम् आरण्यमनु अनुते एशामि दिशामि तेन तेन चिन्वानः चिन्वानस्तनुवः तनुमोनि तनु निषीद सीदेति सीद कुरुत्रिम् त्वष्टुः त्वष्टुर्वरुणस्य तरुणस्य नाभिम् नाभिनुविम् अविञ्जज्ञानाम् जज्ञानागुम् रजसः रजसः परस्मात् परस्मादिति परस्मात् परस्माद। महीगुम्साहस्रीम् साहस्रीमसुरस्य असुरस्य मायाम् मायामज्ञे अग्नेमा माहिंसीः इपुंसेः परमे परमे व्योमन्य व्योमन्य जिविमन्य इमामोर्णायुम् ओर्णायुम् वरुणस्य वरुणस्य मायाम् मायान्तचम् त्वचम् पशूराम् पशूरान् द्विपदाम् द्विपदाम् चतुष्पदाम् द्विपदामिति द्विपदाम् चतुष्पदामिति चतुः पदाम् त्वष्टुः प्रजानाम् प्रजानाम् प्रथमम् प्रजानामिति प्राजानाम् प्रथमम् जनित्रम् जनित्रमग्नेः अग्ने परमे परमे व्योमन् व्योमन्निति वि व्योमन् उष्ट्रमारण्यम् आरण्यमनु अनुते ते दिशामि ते दिशामि तेन चिन्वानः चिन्वानस्तनुवः तनुभोनि निशीद सीदेति सीद यो अग्निः अग्निरग्नेः अग्नेस्तपसः तपसोधि अधिजातः जातः शौचात् शौचात् पृथिव्याः पृथिव्या उत उत वा दिवः दिवस्परि परि येन प्रजाः प्रजा विश्वकर्मा प्रजा इति प्राजाः विश्वकर्मा व्यानट् विश्वकर्मेति विश्वाकर्मा यानक्तम् यानति आनट् तमग्ने अग्ने हेडः हेडः परि परिते ते वृणक्तु वृणक्तु इति वृणक्तु रजा हि ह्यग्नेः अग्नेरजनिष्ठ वा अपश्यत् अपश्यजनितारम् अग्रे अग्रैत्यग्रे तया रोहम् रोहमायन् उपमेध्यासः मेध्यासस्तया तया देवाः देवतामग्रे अग्र आयन् आयन्नित्याजन् शरभमारण्यम् अनुते ते दिशामि दिशामि चिन्वानस्तनुवः तनुभोनि निषीद सीदेति सीद इन्द्राग्निरोचना रोचनादिवः दिवः परिपरिवाजेषु वाजेषु भूषधः भूषध इति भूषतः तद्वाम् वाञ्चेति चेति प्रवीर्यम् वीर्य इति वीर्यम् श्लखद्वृत्रम् वृत्रमुत उत सनोति सनोति वाजम् वाजमिन्द्राः इन्द्रायः यो अग्नी अग्नी सहुरी सपर्यात् सहुरी इति साहुरीः सपर्यादिति सपर्याद् विरज्यन्ता वसव्यस्य असव्यस्य भूरेः भूरेः सहस्तमा सहस्तमा सहसा सहस्तमेति सहहातमाः सहसा वाजयन्तेति वाजायन्ताः प्रचर्षणिभ्यः चर्षणिभ्यः प्रथमा चर्षणिभ्य इति चर्षणीभ्यः प्रथमा हवेषु हवेषु प्रपृथिव्याः दिवः रिलिचाथे इति रिलिचाथे दिवश्च चेति च प्रसिन्धुभ्यः सिन्धुभ्यः प्रसिन्धुभ्यति सिन्धुभ्यः प्रगिरिभ्यः गिरिभ्यो महित्वा गिरिभ्यति गिरिभ्यः महित्वा प्र महित्वेति महित्वा प्रेन्द्राग्नी इन्द्रा विश्वा इन्द्राग्नी इति इन्द्राग्निः विश्वाभुवना भुवनादि अत्यन्या अन्येऽत्यन्या मरुतो यस्य यस्य हि इक्षये क्षये पाथ पाथादिवः दिवो विमहस इति वीमहसः स सुगोपातमः सुगोपातमो जनः सुगोपातम इति सुगोपातमः जन इति जनः यज्ञैर्वाह वा यज्ञवाहसः यज्ञवाहसो विप्रस्य यज्ञवाहस इति संविमिक्षिरे विमिक्षिरे ते रश्में भी, रश्में रश्में रश्में रश्में भी। भी, भी ते रश्मिभिः रश्मिभिस्ते रश्मिभिरितिरश्मीभिः ऋक्वभिः ऋक्वभिः सुखादयः ऋक्वभिर्तृक्वाभिः सुखादय इति सुखादयः ते वाशीमन्तः वाशीमन्त इष्मिणः वाशीमन्त इति वाशीमन्तः इष्मिणो अभीरवः अभीरवो विद्रे विद्रे प्रियस्य प्रियस्य मारुतस्य मारुतस्य धाम्नः धाम्न इति धाम्नः अपते ते हे डकुत् तदुत्तमम् उत्तममित्युतोत्तमम् तया नः नश्चित्रः चित्र आभुवत् भुवदूती ऊती सदावृधः सदावृतः सखाः इति सदावृथः सखेति सखाः तया शतिष्ठया श्रुतिष्ठया वृता वृतेति को अद्य अद्ययुङ्क्ते युङ्ते धुरि धुरिगाः गा ऋतस्य ऋतस्य शिमीवृतः भाविनः हाविनो दुर्हृणायोन् दुर्हृणायोनिति दुरुहृणायुन् आसन्निषून्हृत्सः आसन्निषूनित्यासन् इषून् हृत्सो मयोभूर् हृत्स इति हृत्सो असः मयोभूनियः मयोभूनिति मयः भून् यलेषाम् एषाम् भृत्याम् भृत्यामृणधत् ऋणधत्सः स जीवात् जीवादिति जीवात् दे नय दया आदेवानाम् देवानागंशम् शृणः नो भवन्तु भवन्तु वाजे वाजे वाजे वाज इति वाजे अप्स्वग्ने अप्सित्यपुसु अर्भे सधिः सधिष्ठव तवसः सौषधीः ओषधीरनु अनुरुध्यसे रुध्यस इति अर्भे सन् सञ्जायसे जायसे पुनः पुनरिधिपुनः वृषा सोम सोमद्युमान् द्युमागुम् असि द्युमानि द्युमान् सृषाः वृषादेव देव वृषवृतः वृषवृत इति वृषावृतः धर्माणि धर्माणि दधिषे अधिश इति मे ए मे वरुण वरुणतत् तत्त्वा अ त्वायामि यामि त्वम् तुः नोग्नेः अग्ने सः स चतुर्थकाण्डे द्वितीयः प्रश्नः